शिरो जाति क्षि हु लोक की मिले तब हो लगे पीकी आरतीश्री गायत्री आरती गा लि आरति प्रेमने सोजोरि ध्याही मूरति ब्रह्म ललिकी आरति श्री गायत्री आरती, आरती श्री वेना प्राव